कल्पादिसृष्टभूतप्रभृताय नमः ॐ उदासेनवदासेनाय नमः ॐ चराचरप्रकृत्यध्यक्षाय नमः ॐ जगत्परिवर्तकाय नमः ॐ मानुषतनुमोहितमूढाय नमः ओम् आसुराज्ञातपरभवाय नमः ॐ महात्मने नमः ॐ दैवप्रकृतिकीर्तिताय नमः ॐ महात्मनमश्चिताय नमः ॐ ज्ञानयज्ञे ज्याय नमः ॐकत्वेन ज्ञाताय नमः ॐ पृथक्त्वनविदिताय नमः ॐ विश्वतोमुखाय नमः ॐ क्रतवे नमः ॐ यज्ञाय नमः ॐ स्वदाय नमः ॐ औषधाय नमः ॐ मन्त्राय नमः ॐ आज्याय नमः ॐ अग्नये नमः ॐ हुताय नमः ॐ जगत्पित्रे नमः ॐ जगन्मात्रे नमः ॐ जगद्धात्रे नमः ॐ जगत्पितामहाय नमः ॐ जगद्वेद्याय नमः ॐ जगत्पवित्राय नमः काराय नमः ॐचे नमः ॐ साम्ने नमः ॐ यजुषे नमः ॐ जगद्गतये नमः ॐ जगद्भर्त्रे नमः ॐ जगत्प्रभवे नमः ॐ जगत्साक्षिणे नमः ॐ जगन्निवासाय नमः ॐ जगच्छररणाय नमः त्सुहृदय नमः ॐ जगत्प्रभवाय नमः ॐ जगत्प्रलयाय नमः ॐ जगत्स्थानाय नमः ॐ जगद्बीजाय नमः ॐ असुतेय नमः ॐ त्रैविेष्टाय नमः ॐ सोमपप्रार्थितस्वर्गदाय नमः ॐ त्रयधर्मप्रसाद्याय नमः ॐ अनन्यभावोपस्पासिताय नमः ॐ भक्तयोगक्षेमनिर्वाहिणे नमः ॐ यज्ञभोक्त्रे नमः ॐ यज्ञप्रभवे नमः ॐ देवव्रतदेवभावदाय नमः ॐ पितृव्रत पितृभावदाय नमः ॐ भूतयज्यभूतभावदाय नमः ॐ तपते नमः म् वर्षनिग्राहकाय नमः ॐ वर्षोत्सर्जकाय नमः ओम् अमृताय नमः ॐ मृत्यवे नमः ॐ स्वते नमः ओम् आत्मयाज्यात्मभावदाय नमः ॐ भक्त्युपहृतप्राशने नमः ओम् अपर्णेयकर्तव्याय नमः ओम् अपर्णेयाशुतैव्याय नमः म् अपर्णेय होतव्याय नमः ओम् अपर्णेयदातव्याय नमः ओम् अपर्णेय तप्तव्याय नमः ओम् आत्मार्पितकर्मफलमोचनाय नमः ॐ सर्वभूतसमाय नमः ओम् अद्वैष्याय नमः ॐ प्रियवर्युताय नमः ॐ भक्ताश्रिताय नमः <एवतस्य�> ओम् भक्ताश्रयिणय नमः ओमनन्यभक्तिप्रशंसिनय नमः ॐ भक्ताप्रणाशप्रतिज्ञापकाय नमः ॐ पापयोनिपरगतिप्रदाय नमः ॐ व्यपाश्रितजातेविमुखाय नमः ॐ प्रशंसितब्रह्मक्षत्राय नमः ॐ भक्तिपूर्वमननादिविधाय नय नमः ॐ सुरगणाद्यविदितप्रभाय नमः म् देवाद्यादये नमः ॐ पापप्रमोचनपरमार्थज्ञानाय नमः ॐ देवाद्यविदितव्यक्तये नमः ॐ स्वयंविदितस्वतत्त्वाय नमः ॐ भूतभावनाय नमः ॐ बुद्ध्याविंशतिप्रभवाय नमः ॐ मनोजनितमहर्षये नमः ॐ मनुप्रभावाय नमः म् भावान्वितभजनेयाय नमः ॐ मुक्तिप्रकारप्रबोधकाय नमः ॐ ज्ञानुदीपनाश्रितभक्ताज्ञानाय नमः ॐ परब्रह्मणे नमः ॐ परधाम्ने नमः ॐ शाश्वतपुरुषाय नमः ॐ नारदाद्युक्ततत्त्वाय नमः ॐ भूतैशाय नमः देवदेवाय नमः ॐ जगत्पतये नमः ॐ दिव्यात्मविभूतये नमः ॐ विभूतिव्याप्तसर्वलोकाय नमः ॐ पार्थप्रार्थितविभूतिज्ञानाय नमः